नासदीयसूक्तम् श्रीगुरुभ्यो नमः हरिः ॐ नासदासिन्नो सदासीत् तदानीं नासीद्रजो नो व्योमापरोयत किमावरीव कुहकस्य सर्वन्नभः किमासीद्गहनं गभीरम् न मृत्युरासीदमृतं न तर्हि न रात्यासीत प्रकृतम् आनीदवातं सदया तदेकं तस्माद्धन्यं धन्यन्न पर किं च नास तम् आसीत तमषा गुणं ग्रे ग्रे प्रकृतसलिलं सर्वमा च्छेन्नाभ्यपीहितं यदासीत तपस्तन्महि नाजायतैकं कामस्तदपि संवर्तताधिं मनसो रेतप्रथमं यदासीत् ततो बन्धु सति निरुविन्दन् तिरि कवयो मनीषाम् तिरश्चिनो विदतो रश्मिरे सम्मध स्विदासी दुपरि रेतोधा आसन् महिमान् आसन् स्वधा अवस्तान् प्रयति को अद्धां वेद इह प्रवोचत कुत आजाता कुतम् इयं सृष्टिः अर्वा दर्वा अस्य विसर्जनेनाथः को वेद यत् आबभूव इयं विशिष्टे यत् आबभूव यदि वा दधे यो अस्याध्यक्ष परमेभ्योमस्त्यो अङ्गवेद यदि वा नवेदः ॐ शान्ति शान्ति शान्तिः हरिः ॐ दश श्रीरामकृष्णार्पणमस्ते